एककष्टितमोध्याय युधिष्ठि उवाच मत् कैतवक यज्जिस् दुरोदुहंतव्याम ग्लहमस्परम सी निश्कसहस्र से भाणिन्योभरीता शुभा कोशो हिण्यमश्यंजातमनेकश एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया वैशम्पायन उवाच कौरवाणाङ्कुलकरं ज्येष्ठं पाण्डवमच्युतम् इत्युक्तशकुनिः प्राहजितमित्येव तन्नृपम् युधिष्ठिर उवाच अयं सहस्रसमितो वैयाग्रः सुप्रतिष्ठितः सुचक्रोपस्खरः श्रीमान् किङ्किणीजालमण्डितः संह्रादनो राजरथो य इहास्मानुपावहत् जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः अष्टौ यङ्कुरुरच्छायाः सदश्वा राष्ट्रसम्मताः वहन्ति तेषामुच्येतपदाद् भूमिमुपस्पृशन् एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया वैशम्पायन उवाच एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत युधिष्ठिर उवाच शतं दासीसहस्राणि तरण्यो हेमभद्रिकाः कम्बुकेयूरधारिण्यो निष्ककण्ठ्यस्वलङ्कृताः माहार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः मणि हेम च विभ्रत्यश्चतुष्षष्टिविशारदाः अनुसेवाञ्चरन्ती मा कुशला नृत्यसामसु स्नातकानाममात्यानां राज्ञाञ्च मम शासनात् एतद्राजन् धनं मह्यं तेन